त्वं परा प्रकृते साक्षात् ब्रह्मण परमात्मने त्वत्तो जातं जग सर्वं त्वं जगजननि शिवे महदा जनपर्यन्तं यदेतस्य चराचरं त्वयैवोत्पादितं भद्रे तदीनम् इदं जगम् त्वमाद्या सर्वविद्यानाम् अस्माकम् अपि जन्म भो त्वं जानासि जगस् सर्वं न त्वां जानाति कश्चन त्वं कारितारिणी दुर्गा ोलसी भुवनेश्वरी धूमावती त्वं बगला धैरवीन्नमस्तका त्वमन्नपूर्णावाग्देवी त्वं देवी कमलालया सर्वशक्तिस्वरूपातं सर्वदेवमयी तरु त्वमेव सूक्ष्मा सूला त्वं व्यक्ता व्यक्तस्वरूपिणी निराकारापि साकारा कस्त्वां उपासकानां कार्यार्थं श्रेयसे जगतामपि दानवानां विनाशाय दस्येदानाविधास्तनो चतुर्भुजा त्वं द्विभुजा षद्भुजाष्टा भुजा तथा तामेव विश्वक्षार्थं राणा शस्त्राश्वधारिणी देवी सर्वेषां जननी तुष्टायां तै देवेशि सर्वेषां तोषणं भवे श्रेष्टारा सृष्टे रादौतमेकाशे तमोरूपम् अगोचरं कत्तो जातं जग सर्वं परब्रह्मासिशिक्षया महत्तत्वादिभूतान्तम् दया श्रेष्ठमिदं जग निमित्तमात्रं तद्ब्रह्म सर्वकारणकारणं सदरूपं सर्वतो व्यापी सर्वमावृत्य तिष्ठति सदैकरूपं तिन्मात्रं निर्लिप्तं न करोति न चास्नाति न गच्छति न तिष्ठति सत्यं ज्ञानमनाद्यन्तम् अवाङ्मनसगोचरं तस्येच्छाया मातृलाम्य तं महायोगिनी परा करोषि पासि हंसन्ते जगदेतच्चराचरम् तव रूपं महाकालो जगसृङ्हारकारक महासृङ्हारसमये काल सर्वं प्रशिषति कालनात् सर्वभूतानां महाकालप्रकीर्तित महाकालस्य कलनात्वाम् आद्याकालिकापरां कालसङ्गञ्चनात्काली सर्वे सामाधिरूपिणी कालत्वादादिभूतत्वाद् आद्याकालीति गीयते पुरस्वरूपमासाद्य तमोरूपं निराकृते वाचाति तं मनोगम्यं त्वमेकैवावशिष्यसे साकारापि निराकारा मायया बहुरूपिणी तं सर्वादिरन्तादिस्त्वं कर्ति च पालिका ति हरते च पारिका करति हरते च परिलिका